्वेतमस्वमघास्वायसस्वतिः स्वस्ति तद्वान् दात्रम् मही कीर्तेऽन्यम् भो त्वे द्वो बाजे स तमिद्ध्रव्यो च्छपाद स्वस्य पृष्टः शतम् कुम्भाङ्काशिञ्जकम् सुरायाः हिमे नाग्नि समापालजेता मृतुमतिमूर्जमस्मा भीशे अद्रेमश्विनाबातमुन्यतः सर्वगणम् स्वस्ति परावतम् नासत्यानुदेता मुच्च बुद्धिम् चक्रधर्जिम् अपारम् क्षरन्नापोनपायनाय राजे सहस्राय दृश्यते गोतमस्य जीर्षो नासत्योतभव्रिम् रामङ्गलम् राविलीपद्यमाना रालीरतम् गहितस्य दर्धस्याद्युत्पदी मतम् कनीना तद्वान्नरासम् स्यम्राज्यम् चाभिष्टिमन्ना सत्यावरोधम् यद्विद्वांसा निधि पिवाप गोढमुद्दृशसदा लोपसर्वन्दनाय तद्वान्नरासनजेतम् स उग्रमाविष्क्रीणोमितम् जतुर्नभृष्टिम् दध्यम् भजन्मध्वा दर्भणो वामस्वस्य शीर्ष्णा क्रयती उवाच अजो हरे सत्या करावाम् महेयामन् पुरुभुजा पुरन्धि श्रुजन् दच्छासूरिपवद्रिपत्या हिरण्यहस्तमस्विनावदत्तम् आस्मामृकस्य वर्तिकामभीगे युवन्नारा नासत्यामुक्तम् उतो कविम्बूर्भुजा युवम् भगवमानमकङ्गलम् विचक्षे चरित्रम् जिवेवाक्षे जिवर्णमाजाखेदस्य प्रतीतज्ञायाम् सद्यो जङ्घामाजासीम् विस्फलाजै हरे सत्तप्रत्यधत्तम् शतम् एकान् विक्रे चक्षदानमिद्रा स्वन्तम् पितान्धम् चकार तस्मा अक्षीणा सत्याभिचक्षा धत्तम् दस्राभिरजा वनर्वन् आवान् रथम् दुहिता सूर्यस्य कार्ष्मे वा तिष्ठाजयन्ती से देवा अन्व मन्यन्तरविर्दिस्सं श्रियाना सत्या सुते जयासाय भक्तिर्भरद्वाजायाश्विनादो बाघस च नोरथो बामृढश्चिंसुमानश्च युक्तात्रम् समत्स्यमायश्रीवीर्यम् नासत्यामहङ्का चीर् समानसोपवाजेस्रह्नो भागम् दधाति मया तम् परिविष्टम् जाभृषम् विश्वतस्येम् श्रीभिर्नक्तमोहसूरजोभिः हिन्दुना नासत्यारथे न विपर्वतामय रजु आजातम् एकस्यावस्तो रावतम् वृणाज वश्विना सनये सहस्रा निरहतम् दुच्छुना इन्द्रवन्ता वृथस्रमासो शरस्य ज्याकस्या पदानी चक्रपादवेवा सयवे चिन्ना सत्यासची भर्जसूरजे सिजम् विद्यसुर्गा अपश्यते स्तु पदे कृष्णिजाय ऋजूयते न सत्यासचीभिः वसन्ननष्टमीपदर्सनाय कृष्णात्मम् ददथर्विश्वय दशरात्रे दशीबेनानमद्यो नवं शिरमुत्स्वा अन्तः विप्रोतम् रेहमुद निप्रवृत्तमुन्यसोमेव नामोचमस्य पति स्याम् सुगमस्रुवीराः उत पश्यन्न स्रुवन् दीर्घमायुरस्तनिवेद्यमाणम् जगम्याम् मध्वः सोमस्याश्रीरामदाय प्रत्नो हो दानीवासदेवा बहिष्मादिराजर्मिश्रितागिरिराजाह तम्मा सत्योपमाजैः यो वाम श्रीरामन सोऽधस्व सोपि सा आचिगादि तेन गच्छ तस्वतोः दुरोणम् तेन नरा भक्तिरस्मभ्यम् जातम् ऋषिन्नरामसपाञ्जन्यलीशादम् गणेन विनन्दादस्योदसीवस्य मायानुपूर्वम् ऋषणा चोदयन्ता अस्वन्न भूनवस्विना दुरेवे ऋषिन्नरा वृषणा रेभंसु सन्तम् वेणीभो विप्रतम् तम् सो धन्यवाञ्जोर्यन्त्य भूर्याकृतानि ृक्वान् सन्ननिर्देतेरुपस्थेसो जन्नदश्रातमशिक्ष्यन्तम् सुमेक्मन्न शतम् निखासमुदो मधुरश्रिना वन्दनाय तद्वान्नराशंस्यम् वज्रिजेन कक्षीव ताना सत्यापरिज्मन् सपादस्वस्य वादिलोचनाय सर्वम् कुम्भासिञ्च तम् मधूना युवम् न रास्तु पते कृष्णयाय विष्णात्वम् ददुर्विश्वागाय भोरायैत्यपि दृढे द्रोणे पतिम् यूर्यम् चासि नाम दत्तम् इवम् श्यावायुषा जीवदत्तम् महाक्षोणस्यासि वाच्यम् तद्वेषणा कृतम् वाम्यन्ना श्र यश्रवो अद्य धत्तम् पुरोवर्पाम् शश्रिनादधा राजिपेदव गोपसुरासुमस्वम् सहस्रसाम् वाजिनमप्रतीतमहिगलम् श्रवस्यान्धरुद्रम् एतानी वाम् श्रवस्या सुदानो ब्रह्मा घोषम् सुदारम् रोदस्योः जेद्वाम् वज्रासो अस्वि नाहम् देयात विषा च विदुषे च वाजम् सोनोर्माणे नास्विनागुणानावाजम् विप्रायफुरना रदन्ता अगस्ये ब्रह्म जान्ता सतिम् काक्यस्य युवो न मातावृणा स युद्रा हिरण्यस्यैव कलसन्निखा समुदोपशब्दसमे अस्ति नाहम् युवम् यानमस्ति नाचरम् तम् पुनर्युवानम् चक्रसस्सजीभिः युगोरथम् दुर्वितासूर्यस्य सहस्रियाना सत्यावृणीता युवम् दुग्राहाय पूर्ये विरेवैः पुनर्मः स मुद्रा अजो हवीनसि न तौ ग्र्यौ भाम् रूढः समुद्रमव्यजन्त्य धन्वान् इष्टमो गतस्वियुजारथे न मनो जगसा मृषणा स्वस्ति अयोगमीदस्ति नावत्ती गामा भास्नो यत्सीममुञ्जतम् मृगस्य विजयिषा यत सान्वद्रे जातम् विश्वासो अहतम् विषेण सरम्येषाम् नृत्ये मामहानम् तमप्रणीतमसीमेन पित्रा आक्षि सुनमन्धा जभरामह्वजत्सा विकीरश्विना मृषनानवेति जारः कनीनाजिव चक्षता न रुद्राश्वस्वमेकम् च मेघान् महीमा गोतिरस्वि अधेनम् दस्रा स्तर्या अमृतकामकिन्दतम् सयवे अस्वि नागा युवम् सजीभर्वविपदाय जायान्यो भवतःपुरमित्रस्य योषा यमम् मृगेणास्वि नामपन्तेणम् ध्रुवन्तामनूढाय दस्रा अभिदस्यम् बकूरेणाधवन्तोरुज्योतिश्चक्रसुरार्याय सर्वनायाश्विना दधीतेश्वम् शिरः प्रत्यैरयतम् स वाम् मधुप्रभो चतुर्थायम् त्वाष्टम् यद्दस्रावपि कक्ष्यम् वा सदा कवीसु मतिमा च के वाम् निःश्वाधियो िरण्यहस्तमस्ति कादला रापुत्रम् न राभ्रिमत्या दत्तम् हस्या वामस्य नाविक समुज्जीवस ऐरयतम् सुदानु एतानि वामस्ति नावीर्याणि प्रभूर्या न्यायवोऽचन् ब्रह्म कृन्तो मृगणा वामृतोस्य मनसोदीया त्रिबन्धुरो वृषनामातारम्भाः त्रिबन्धुरेण त्रिभृतावथेन त्रिचक्रेण सुभृता यातमर्वान्वा गङ्गा इन्व तमर्वातो नो बद्धया तमस्ति नीनमस्ते सुभृता रथे नदस्रांश्रेणतां स्वमद्रेः श्रिमङ्गवाम् प्रत्यवत्तिङ्गमिष्ठाहुर्विप्रासो अस्ति नाजा आवां स्येनासो अस्ति नामहम् तुलथे युक्तास आसवः पदङ्गाः हे अप्तुलो दिव्यासो न गृध्रा अभिप्रयो नासत्यामहम् आभाम् रथम् युवजस्तिष्ठलत्वा जुष्टिर राजुहिला सूर्यस्य परी वाम स्वा बभूषः पतङ्गामयो महन्द्वरुषाभिगे उद्वन्द्वनमैरतम् दंसनाभिरुद्धे वन्दश्राविण नासजीभिः युवात्रयेवानीता गतत्तमोर्जामो मानामश्विनापधत्तम् युवम् कण्वाजापि रिक्ता गजक्षुः प्रत्याधत्तम् स क्षञ्ज्योजुषाणा युवम् धेनुम् सजवे एनाधिताजापिम्बतमश्विना भूर्याय अमुञ्ज सम्वर्ति कामम्भा सोनिप्रतिजङ्घा विश्वलाजाधत्तम् िवाम् श्वेतम् वेदम इन्द्रदूतमहितमश्विना रमश्वम् यो होत्र वर्यो अभिभूतिमुग्नम् सहस्रसामृम् विध्वम् तावान्न स्वाताः वामहे अस्ति नानाधमानाः आ न उपसुमता रथेन गिरो दुषा नासु पिताया जातम् स्येन स्यजवसा नूतनेनास्तेया तन्ना सत्या सजोषाः हवेहि वाश्विना राधहौ यस्य स्वमायागुणसोऽष्टौ आवाम्रथम् गुरुमाजम् मानोजुमम् जीराश्वम् यज्ञियम् जीवसे हुवे सहस्रगेतुम् वदिनम् सहस्र भिप्रजा ऊर्ध्वादेति प्रत्यस्य प्रजा मन्यथायिष स्मन् समाजन्त आदिशाः स्वधा मि घर्मम् प्रतीयत आवाजाने कर्मन्विधः पस्प्रधानासो अग्मातशुभे मखामि याय गोरणे युगोरः प्रवले चेकिते रसो यदश्रि नाम हस्तूनिमावरम् युगम् भुज्यम् भुरमाणम् बिभिर्गताम् स्वजग्तिभिर्निवहन्तापिदृभ्यः राशिष्टम् भक्तेषणा विजेन्या दिवोदासा जमही चेति पामपाः युवोदश्रि नाम पूषेजु वायुजम् रथम् मधुरस्य सध्यम् आवाम् पथित्वम् सख्याय जग्मुषी दोषा विनीतजे युवम् रेमम् परीषूतेनष्यतोम् परी तप्तमत्रामम् सयोगपसंवेप्य स्वर्गभिप्रदीर्घेन वन्दनस्तार्यजूढा युवम् वङ्गन्यजा रथम् नदस्त्रागरना समिन्वतः विप्रम् जनसा विपण्यजा प्रभामत्रापिधते संसमाभूवत् आगच्छतम् कृपामाणम् परामते पितस्वस्यत्य च सा निबाधितम् सर्वती ऋतभूते योरः चित्राभीके अभवन्नभिष्टायः धु मन्मक्षीकारमन्मते सोमस्यौ शिजोः वन्यति युवम् दधीजो मन आविवासोऽधा शिरः प्रतीभाव्यम् वदति युवम् वेतवे पुरुवारा वश्विना श्रुधाम् श्वेतम् तृतारम् दुमस्य सः शर्यैरीरभिद्यम् वृतनाश दुष्टरम् चर्क्रत्यमिन्द्रमिव चर्षणीसहम् ोत्राम् को वाम् ज्योष उभयोः कथाविधात्यप्रचेताः विद्वांसा विद्व प्रच्छेद विद्वानित्थापारो अचेता गोचेन्मर्थे अक्रौ ता विद्वांसा हवामहे भाम् तानो विद्वांसा मन्वा गोचेतमद्या युवाकोः निपृच्छामि पाठ्या आनदेवान्यषट् कृतस्य अद्भुतस्य दस्रा वातञ्चसह्यासो शिवम् चरभ्यासो नः प्रजाघोषेर्भे दशो यातिपद्यो वा नैष श्रीङ्गायत्र बालस्याकम् सिद्धिरिवेभासि वा हाक्षीषुभस्पतिरन् इव्यास्तम् महोरन्युवम् पाजन्निरत संसतम् तानो वसोसु गोपा स्यातम् पातम् नामृताघायोः कस्मै धातमभ्य मिथिने वा कुत्रा नो गृहेभ्यो धेनवो भुः सदा भुज असिष्वी गृहीयन्मित्रधीतये युवाकुराजे च नो विमीतम् वाजावत्यै दिषे च नो विमीतम् ेनाहम् भूरि जागण अयम् स महमात नो स्यादे सोमपेयम् सुखो रथाः अतः स्वप्नस्य निर्विदेभुञ्जतश्च देवताः उमादावश्री न स्यतः प्रतिथात्रम् देवयताम् श्रभद्गिरो अङ्गीरसाम् तु प्रजतानग्निसहा्यस्योऽत्रम् से अध्वरे य तत्र स्वगम्भीर्ध्याम् स धरुणम् गृहाय धृर्वाजायद्रविरण्णरोगो अनुस्वदाम्ना हिरश्च क्षतम् राम्ये रामस्तस्य परिमातरङ्गो नरुणे होर्यम् रात्रो विरामङ्गीरसामनुद्यो यत् क्षद्वज्रम् नियूतम् तस्तम् भद्याम् चतुष्पथे नर्यायद्विपादे अस्य मतेश्वर्यम् दारुदायापीमृतमुश्रिया नामनीकम् जगध्वप्रसर्गे त्रिलकम् निवर्तत भज्रभोपालो नस्य गुरो तद्भ्यम्भयोजत्पितरामणीताम् राधस्वेदस्तुरणेऽभुरन्यो श्रीयत्ते गमाय दन्तसपद्रुभायाह्यास अथ प्रज्ञेतरणर्मम त्वप्ररोचस्याम् धर्मेभिरास्वेदोह्ये श्रेण सिञ्जञ्चरनाभिधाम श्रीध्वाय ध्वनधिरपस्यात्सूनो अध्वरे विरोधरागो भासिक्यो नस्विषे तुराय अमष्टामहो दिवः दोहरीहद्युम् नासाहमभियोधानत्सवम् हरिज्यते मन्दिरम् लक्षन् वृते गोरभसमग्रेभिर्वाताप्यम् य संप्री वर्तयो गो दिवो अस्मानमुपदे सत्साय यत्र पुरुभूतभङ्गे परियासीवधैः पुरा यत्सो रस्तमसो अपीतेस्तमदिवः फलिगम् हे दिवस्य शुष्टस्य चित्परिहितम् यतो दिवस्पधि सुग्रथितम् ददाताः ीपादसिक्रेद्यावा क्षामा वददामिन्द्रकर्मन् त्वम् वृत्र वासयानम् शिरासो महो वज्लेन सृष्वोपलाहुम् त्वमिन्द्रणर्योजातिष्ठावादस्य सुष्ठान् दन्ते काव्यभुशना मन्दिरन्दार्द्रत्रहनम् पार्यम् क्षवज्रम् त्वमम् सूरोः हरितो रामजोन्रेण्रश्चक्रमेत सोनाजनिन्द्र रास्य पारम् न पतिम् नाव्यानामपि कर्तमा वर्तयो यजूरन्वाहा जा अस्व बुद्ध्यायसूहृतायै महारादे अस्मत्सो मजर्विदसद्वाज प्रमह समिषो भवन्त आभयमहङ्गोश्वर्योमम् ज्येष्ठास्ते समादः स्यामीरादयमनाः हरि ओन्तम् रघुवन्यवोधो यज्ञम् रुद्राज विहृद्भम् विभो अस्तोशूरस्य वीरैरेव मरुतो रोदस्य पत्नी पूर्वहो चिम्बा वृदध्या उषासानक्ता वुरुधा विधाने स्थलेर्ना कम् ज्योकम्बसा गासूर्यस्य श्रियासुषे हिरण्यैः ममत्तो नः परिज्ञापसर्गा ीतमिन्द्रापर्वदा युवनस्तन्ना विश्वे परिवश्यन्तु देवा उदत्या मे यशसा स्वेतना जीव्यन्तापान्तौ सुजो हुवध्यै प्रभोनपादमपाम् गृणध्वम् प्रमातरा राश्मिरस्यायोः आवोर्वण्यमौ सिजोहुमध्यै घोषे वसम् समर्जुनस्य नंसे प्रवः पूष्णे धामनाच्छाभोजेय वसुधादिमग्नेः श्रुतम् मे विद्रावरुणाहमे मोदः श्रोतम् सुदाने विश्वरस्यी श्रोतो नः श्रोतोरादिः सुश्रोतुः सुक्षेत्रासिन्धुरद्भिः सुजेतावाम् वरुणमित्रराजैर्गमान् सदा वृक्षयामेषु भज्रे श्रुतराधे प्रियरथे दधानाः सद्यः पुष्टिम् नेतुन्धानासो आह्मन् अस्य स्तु क्षेमही मगश्च राधः सदा जनायः पद्रेभ्यो वादिनी बाणश्वावरोह्यम् सूरिः जनायो मित्रावरुणामभितृकपोलवान् सुराजक्षयाधृगे स्वयम् स यम् हृदा देवि दत्ता भजति भोत्राभिर्हृदा वा संराधातो न गोषोदम् सुजोदः सर्धस्तरो भूर्तस्रवाः विहृष्टरा चर्याति बा श्रुत्वा विश्वासभृत्सु सहमिच्छूराः अथक्वन्ता सूरे श्रोता राजानो अमृतस्य मन्त्राः अभोज बोलन्नीरमस्य राधप्रशस्तये महिना एतम् सर्धम् दावयस्य सूरेत्य वो छन्दसदयस्य नंसे युम्ना नियेषु वसुता दीरालम् विश्वे सन्वन्तप्रभृतेषु वाजम् मन्दा महेदसदयस्य दासे यत्पञ्च बिभ्रतो यन्त्यम्नाष्टास्व इष्टरस्मितयी सानादस्तरुञ्जते ीभवन् नस्तन्नो विश्वे वलि पश्यन्तु देवाः अन्यो गिरः सद्यः जग्मुषीरो श्रास्त्रान्तु भवेस्मे चत्वारो पापसंसारः स्र्वस्त्रजोराज्ञायभस्य जिष्णाः रतो वा निद्रामरुणादीर्घात् सामागमस्ति रथो रथो दक्षिणायाजोज्यैनम् देवासो अमृतासोऽस्थो कृष्णादुतस्ताद्यायुधायास्ति <laughs> चेत् सन् देवानुरायक्षया पूर्वा विश्वस्माद्धुवरादपो द्विजयन्ति वाजम् ऋहति सनुत्री उच्चार्यज्युपतिः पूर्भोरोगन् प्रथमापूर्वभूतौ रजभागम् विभजापुषो देविमत्यत्रा सुजाते देवो नो अत्रा स पिता मोचति सूर्याय हनाजात्यच्छादिवे दीवे अधिना मादधाना शिशाः सन्दे धनाथ स्वदाघातग्रामग्रमिद्भजते वसूना भगस्य स्व सावरुणस्य जामिरुढः सूनृते प्रथमाचारस्व अहस्यासदध्याजो अघस्य धाता जय मतम् दक्षिणजारथेना उदीरताम् सोन्नतागुत्वरम् धीरुधग्गजुजानासो अस्तु सार्घावसो नितवसा गोलाविष्णुम् अञ्जुषसो विभातिः अपान्यतेत्यभ्या अन्यदेविषु रूपे अहनि सञ्चरेते परेक्षितो स्तमो अन्या गुहासोऽसु जथा रथेन सदृशे रजसदृशे रजस्व दीर्घम् सजन्ते वरुनस्य नाम अनवद्यास्त्रिंस संयोजनाान्येतैः कार्कम् परियन्ति सद्यः ज्ञानत्यन्नः प्रथमस्य नाम शुक्राकृष्णादनिष्टस्विती कृतस्य जोषा न मीनादिधाबाह रहन्विः कृतमाचरन्ति कन्येव तन्वा आसदानाम् देही देवि देवमियक्षमाणम् संस्मयमानाय वजः पुरस्तादाविर्वक्षाम् श्रीर्षेर्विभाति ङ्गासा भाद्रविष्टे बजोषा विस्तन्बम् भद्रात्तमोषो वितरम् योच्छलत्ते अन्या वृषसो न सन्त अश्वादीर्गोवादेर्विश्ववायता सूर्यस्य पराचयन्ति पुनराचयन्ति भद्राणामवहमानाः ृतस्य रश्मिमा नियच्छमाना भद्रम् भद्रम् कृतो भस्मासु धेहि उषो अद्य सुभभाव्योच्छास्मासुराजो भगवत्सुतस्यो पुषा गुच्छन्ति सविधाने अग्ना बुद्ध्याम् देवो न अत्र समितान्वर्थम् प्रासावेद्धिव चतुष्पदित्यै अमीनती देव्यानि वृतानि प्रमिनती मानुष्या युगानि यीदुषे राममा सीनामायतीनाम् प्रसमोषाभ्याद्यौत् एकाधिबो दूषिका प्रत्यदर्शिज्यो धर्मसा पुरस्तात् कृतस्य बन्था मन्देति साधु प्राजानति वनदिशो विनाति उपो अदर्शि सन्ध्यो नवक्षो नोधाजी वाविर कृतप्रियाणि अद्मसन्नस सतो बोधयङ्गीत सत्तमाघात् पुनरेजुषीनाम् पूर्वे अध्येद च सोऽस्य काञ्जनित्यकृतप्रभेदम् यो रथदे तरम् मली जवो भावनन्दी पित्रोरुपस्था एता पूर्णमाभिषेकम् नाजाभिन्नपरि विनक्तिजामिम् अभ्रादेव भातिभ्राते प्रतीति गत्तालुकी वसनजेधरासति सुः पुराहस्रे वृणीते अप्साः स्वश्रे ज्यायस्ये योनिमारैव वैत्यस्याः प्रतिलक्ष्येव युच्छन्ति रश्मिभिः सूर्गस्याञ्जङ् समनगायीभव्राः आसाम् पूर्वा सामः शुश्रे नामपरापूर्वा मध्ये प्रत्नवन्नम् यासीर्नूनमस्मे रेव गच्छन्तु सुधिना भुषासाः प्रबोधयोः कृणतो मघोन्यबुध्यमानाः पणयः सन्तु रेवदच्छमघवद्भ्यो मघोनिरेवः सोत्रेऽसोऽते जारयन्ति अवेयमस्वैपतिः पुरस्ताद्वन्ते गवामरुणा नामनीकम् ो नवच्छादशाकेतुर्ग्रहम् ग्रेहमुपाधिष्ठाते अग्निः वृत्ते वयश्चेद्वसतेन वप्तण्डरश्च चेपि अमासतेवगसि भूरिवामृषो देवि दाजुेवत्यार्ध्वां स्तोम्या ब्रह्मणामेवी बृहद्वसतीसह युष्माकम् ीरवसासमेम सहस्रिणम् च सजिनम् च वाजम् प्रातरत्नम् प्रातरित्वा दधाति कम् चीकृत्वा धत्ते तेन प्रजा बद्धयमानायूरायस्पोषेण स चते सुवीराः सुगुरसत्सु हिरण्यस्व स्वो बृहदस्मै वय दधाति च स्थायन्तम् वसूना प्रादरित्वो मुक्षी जाये वपति मुत्सिनाति आयमद्य सुकृतम् प्रादरिच्छन्निष्टेः पुत्रम् वसुमता रथेन हंसोऽस्तुतम् पाजय मत्सरस्य क्षयद्वीरम् वर्धयसूनृताभिः उपक्षरन्ति सिन्धवोमयो भुपागीधानम् च यक्षमाणम् च धेनवाः ृणन्दम् च श्रवस्य वो घृतस्य धारा उपायन्ति विश्वताः नाकस्य पृष्ठे अधितिष्ठति श्रुतो यः प्रणादि सह देवेषु गच्छति तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा दक्षिणा पिन्वते सदा ित्रा दक्षीणावताम् दिविसूर्यास दक्षीणावन्तो अमृतम् भजन्ते दक्षिणावन्तः प्रतीरन्तः आयुः महाभृन्तो दुरितमे नारन्नादारिणः सूरयः स्व्रता सा अन्यस्ते राम् परिरस्तुरः सुरप्रेणन्तमभिसंयन्तु शोकाः तो मान् प्रभरेमनिषा सन्धावधिक्षियतो भाव्यस्य यो मे सहस्रममीमेतसपा नदूर्तो राजा श्रमानः शतम् राज्ञो नाधमानस्य निष्काच्छतमस्वान् प्रयतान् शतम् कक्षी वा मसूरस्य गोनाम् त्रिमिश्रभोजरमाददान उपमास्या वा स्वनयेण सत्ताभूमन्तोदशरथासो अस्तु षष्टिः सहस्रमभगव्यमगात्सनर्कक्षी वा अह्नाम् चत्वारिम् सद्दश रथस्य सोणा सहस्रस्याद्वे श्रेणिम् कृशनामदो हत्या क्षीवन्त उदा मृक्षन्त वज्राः ओर्बावनप्रजातिमादेवस्त्री अष्टावधाय शोकाः सुबन्धभोजे विश्याय वव्राहरस्वन्धस्वैरन्त वज्रा आरासिता परिगथिता जाकीके भजङ्गहे तदादिवह्यम् जादूरीजासूनाम् भोज्यासदापमे परा वृषमामे दभ्राणी मन्यथा सर्वाहमस्मिरमसा गन्धारीनामि वा विका अग्निम् होतारम् मण्येदा स्वन्तम् वसुम् सोनुम् सहसो जातवेदसम् विभ्रन्न जातवेदसम् च घूर्ध्वया स्वद्वरो देवो देवाच्याः कृपा ऋतस्य विभ्राष्टिमरो भक्ष्सोदिषा जिह्वानस्य सर्पषाः यतिष्ठन् त्वानाहुवेज्येष्ठमङ्गीरसाम्यप्रमन्मभिर्विप्रेरेभिस्व प्रमन्मभिः परिज्ञमानमिवद्याम्भोता रम् जीना सोऽष्केः संवृषणम् जिमापि सप्रावम् तु जूतजे विरोचसा विरुक्मदाती नो भवति गृहन्तरः परसम् अग्रोहन्तरः देशु यज्ञस्य समृतौ श्रुमद्मने भय विश्वः मानो यमतेनासहाजाते अस्मानोर्यथाः विदेते ज्येष्ठाभिहननि वृद्धाश्च पुरोणिगाह ते तक्षद्मने वोचिषा स्थिरा जिदन्नानि लीलात्योजसा स्थिराणि चितो जा तमस्य वृक्षमुपरासु धेवन क्लयस् सुदर्श तरो दिवादलाद प्रायुषे दिवादलात् आदस्य दुर्द्रम नवद्वी सन् मनसो नवे भक्तमभक्तमो व्यन्तो अजराः अजराः ष्टनिरप्लस्वतीशो नरा स्विष्टनिरार्तरास्विष्टनीः आदद्धव्यान्यादधर्जज्ञस्य केतुरर्हणा स्मास्य हर्गदोहितो विश्वेनेन्था नरः शुभेन पन्था भिद्य बोधमस्यन्त उपवोचन्दृगावो मच्छन्तो दासा भृगावः अग्निरे सेवसूनाम् सुरजो धर्मिरेढाभिधीन् वा निषेष्टमे धीरा वा निचेष्टमे धीरः विश्वासान्त्वा विशाम् समानन्दम्बाम्भुजे सत्यगर्वाः सम्भुजे अतिथिम्मानुषाणाम् पितृर्नयस्या सया अमीच विश्वे अमृता सह वयो हव्या देवेष्वावयाः सहसा सहम् लवः सुष्म्यन्तमोजायसे देवतातये वियन्म देवतातये तृष्णिन्त मोहिते मतोद्युम्निन्द बभुधक्रतुः अथस्मादे परिचरञ्जलसृष्टेवा नो नमो महे सहसा सहस्वतगुणर्बुधे पशुवेनाग्रजे सोमा बभूत्पग्नजे प्रति यदीम् भविष्मान् निष्मा सुक्षासुजोभूमे अग्रे रेभो नृशोणा स्वनाभे देवेभिः सेतुना महोदायः सूचेतुना महे समिष्ठनस्कृतिसञ्चक्षे भुजे अस्यै महिस्तोतृभ्या मघवान् सुरेन्यंवसीरुप्लो न समासा अजयञ्जायतमनोषोधरीव लिहोदायजिष्ठभुजामनोव्रतमग्नेश्व मनोव्रतम् विस्तसृष्टिः सखीयते रजिरेव श्रवस्यते अधब्दोहो दानिषादिलस्पदे संयज्ञसाधमपि वादयामसृतस्य पथा नमः हविष्माता देवता ताहमिष्माता स न भूर्जा उपाभृत्यजा कृपा नजोर्यति यम् माधरि स्वामनवेवतो देवम् वाताः ये मेन सद्यः पर्येदिपार्थिवम् मुहीरेतो वृषभः कणिक्रदधद्रेदः कणिक्रदत् सदम् दक्षाणाक्षभिर्देवो वने सुधर्वणीः स दो दधा नपुपादेषु सानुष्वग्निः परे सानोषु स स क्रतुः पुरोहि गोदमे दमेऽग्निर्यज्ञस्य कृत्वा यज्ञस्य चेतति कृत्वा मेधाजेषु यले निश्चा जातानि पस्मसे यतोऽभृतश्रीगति शिरजायतवह्निर्वेधा अजायत यद शतमे पञ्चदे भोज्ये शिराय न भोज्या स येष्मादानमिन्वदिवसूनाञ्च मध्मना सहस्रा सदेनुरिदभिः विश्वो विहाय अरचर्वसर्दधे हस्ते दक्षिणे धननिर्णसि स्रथत्स्रमस्य जानसि स्रथत् विश्वस्मायजेषु ध्यते ते वत्त्रा हव्यमोहीषे विश्वस्मायत्सुकृते पारामृणत्यज्ञर्द्वारा गृण्वति समानोषे वृजने सन्तोहितो ज्ञेषु विश्वजी स्यामानूषाणा विलाकृतानी पत्यते सहस्रास देवरूलस्य धूर्ते महादेवस्य धूर्तेः अग्निम् होतारमेण देवसूधितिम् प्रियम् चेतिष्ठमरजन्ये दे विश्वायम् विश्ववेदसम्भोतार्यगतम् कविम् देवासो रण्मव देवसूयवो गीर्भिरण् सूया ओ